गणेशपुराण उपासनाखंडम अयटी थ्री मुनिवाच कस्मिस्था तपोकारिराण परमाभुत तथयलोकेश तृप्ति मे नास्ृणत क उवाच मयूरेश्वरनाम्ना यत्क्षेत्रं ख्यातं चतुर्युगे यत्रावतीर्णो देवेशो मयूरढ एव सः कमलासुरनामानमहनदैत्यपुङ्गवं मयूरम मयूरेश इति स्फुटम् संस्तुतो देवमुनिभिर्लोके तां ख्यादिमागमद दवाप दवापरशुं ततः स्वयं परशुरामो भूनाम्नाख्यादस्त्रिविष्टपे इतिहासं प्रवक्ष्यामि शृणु त्र मुनिसत्तम तारको नाम दैत्यो भून्महाबलपराक्रमः दिव्यवर्षसहस्रं स तपस्तेपे सुदारुणं तदप्रसन्नो ब्रह्मास्मै ददौ सर्वां भयं द्विज देवर्षि यक्षगन्धर्वो रगराक्षसहस्ततः तच्च ्रास्त्रगणान्मृत्युर्नदे क्वापि भवेदिति उत्पत्स्यते यदा स्कन्दस्तदस्ते मरणं भवेत् इति तद्वाक्यमाकर्ण्यबलगर्वसमायुधः तारको पीडयल्लोकान् त्रैलोक्ये वसतो मुने वेदाध्ययननिष्ठांश्च तपोऽनुष्ठानकारिणः अग्निहोत्र रदान्यान्कारागारेक्षिपद्विजान् सर्वान्राज्ञोऽधनागांश्च वशे वशेकृत्वा दिवं व्ययौ इन्द्रादयस्तदा हिमाचल हिमाचलगुहां गदाः तत् भयावि यजन पूजनम तथा अहमे द्राक्मनकुदेवता अहम नमस्यूज्य न्यो जगदी क्वापि यणी पूजिए स दंड्यस्ताड़नीय सैचेवा यमसाधनम ये सर्व लोकेशुपयास दूत तत सर्वे जनक सज्जनवर्जिताध्यायदानिवर्जिता उच्छिन्न उछिनकुलध्मा स्वाचार खला दैत्यो दें प्राथयासुक शरणं विवर्धिता यामक्कं जगरीश्वरं। निर्मादारक्षिदाधादा संहर्ता जगदां विभो दावानलो वनमिव दहदेस्मान् स दर्पदः यदिदे सञ्जिहीर्षा स्यात् संहरस्वस्वयं जगद नो चेत् संहरदैत्यं त्वं तारकं सर्वपीटकं एवं सम्प्रार्थ्य पुस्ते दुष्करं तप उत्तमम् पत्रभक्ष्या वायुभक्ष्या निराहारा जलाशिनः एवं स्थितेषु मुनिषु तेनाज्ञातेषु दैत्यराट ऐन्द्रं पदं समास्थाय ब्रह्माणं समताडयत विष्णुस्तदो गमत्क्षीरसागरं निद्रितुं मुने त्यक्त्वा कैलासमगमच्छङ्करोऽपि गुहान्तरं दिक्पाला नाना नानागह्वरमाश्रिताः तेषां स्थाने स्थापयत्स दैत्यानन्यांश्च दैत्यराट अचलामचलस्तिष्ठन् पालयामास वै प्रजाः गर्जदे स्वस्वभावेन कम्पतेध त्रिविष्ठपं तद इन्द्रादयो देवास्तुष्ठुवो गिरिगह्वरे गिरीशं गिरिजानाथं गिरा गम्भीरया मुदा देवा देवाधि ऊचुः देवाधिभूमिगगनेन शशिस्वरूप वायुवग्निरूपयजमान जलस्वरूप त्वं स्थावरानधचरान् सृजसे वशीष त्वं सर्वमेव हरसे निजयेच्छयेश तन्नोचिदं त्वयि परे परदुःखहारिन् स्वीयं यशः परगदं बहुधाद्यकर्तुं तन्नाशयैनमधवा सकलान्मुनींश्च देवान् द्वयोश्च भजनं परिविष्टचित्तान् कं वा व्रजेमशरणं त्वदृदे गिरीश कम्बा भजेम भगवंस्त्वदृदे महेश कम्वावदेम वृजिनार्दन पार्वतीश को वा विदुं प्रभवदि त्वदृदेखिलेश क उवाच एवं ते तुष्टुवुर्यावचुश्रुवुस्तावदेवहि न सर्वदेवा, वाणीं सर्वदेव हरपुत्रो यदा भवेत् तदास्य नाशो भविता यत्नं कुरूद नभोवाणी समाकर्ण्य सर्वे हर्षसमन्विताः कैलासं देवनिलय मा सुराः नापश्यच्चङ्करं तत्र ददृशुः पुरदो मरः मूलप्रकृतिरूपां तामुमां सर्वे विजिज्ञपुः तारकेत्तारकज्ञानप्रदे त्रैलोक्य, तारकाद त्रैलोक्यपीडकादुष्टात् पदभ्रष्टान् मुनीनसुरान् तथा विचित मतस्त नाशो भव था मणमामजननीक्यरक्षाकर्वाणी त्रिपुरे परात्परक्रह्मादि संस्तु ेदरू गुरुजगत्कल्याणमीश प्रि स्वेचोपात्त सुविग्रहे सुरकरे वैश्वादिभूते नखे क उवाच एवं सम्प्रार्थिता देवी विश्वमादा जगादतान्न नभोवाणी वाणी मया ज्ञाता सखैव यान्तु सर्वेपि मया यत्र स शङ्करः परं नियममास्ताय कुरुते परमं तपः इत्युक्त्वा सर्वदेवान् सा यां दृष्ट्वा परमो योगिकामबाणार्दिदो भवेद् देवा अपि के जिज्ञादा मदनविह्वलाः उर्वशी मेनकारंभा प्रारम्भा रदिस्तता लज्जिता तां निरीक्ष्यैव सर्वावयवसुन्दरां ते देवासा च गिरिजा प्राप्ता ब्रह्मन् शिवान्तिकम् स्ताणुं तं स्ताणुभूतं च ध्यान निश्चललोचनं ध्यायन्तं मनसा ब्रह्मजपन्दं निष्परिग्रहं ददृश्युः सर्वदेवास्ते भिल्ली चापित्रिलोचनं तद ऊचे किलान्देवानुमोपायं सुखावहम् देहातीद इवास्ते सौ तपोनिष्टः सदा शिवः ये दस्य देहभावार्थम् कामम् विज्ञापयन्तु च तेनेषृणा यदा विद्धः एकनिष्टः सदा शिवः यास्यते देहभावं स तदा कार्यम् भविष्यति तदो देवाः सर्वयेव कामं समागदं समागतं तमूचुस्ते स्वकार्यकृतनिश्चयाः प्रार्थया मासुरपरेस्वकार्यायमनोभवं विभुस्त्वमसि लोकानां चरेषु स्थावरेषु च त्वयैव जायदे श्रेष्ठ टिस्त्वया व्याप्तमिदं जगद अबलाकामिनः सर्वे त्वयैव बलवतराः त्वया विना वृथा सर्वं जगस्थावरजङ्गमम् अधस्त्वयैव कर्तव्यं सर्वेषां कार्यमुत्कटं काम उवाच यद्यप्यहम् विसामग्रिस्यथायुष्मत्प्रसादः करिष्यामि वजकार्यमादेहपदनावधि सुमं धनुर्मरालाज्येषु कडाक्षोध योषितः विजेष्येधापि सकलानमराञ्चकरावधि वसन्तं प्रतिलभ्यैव सहायं सकलं सुराः क उवाच एवमुक्त्वा गधः कामो यत्रास्ते सौ सदाशिवः मोहितुं शङ्करं देवं देवानां कार्यसिद्धये यदि श्रीगणेशपुराणे उपासनाखण्डे त्रि अशीतितमोऽध्यायः ओ